सोमस्य तु सुतो वर्चावर्चस्वीयेन जायते मनोहराया शिशिरः प्राणोऽथ रमणस्तथा अह्नः सुतस्तथा ज्योतिःश्रमः शान्तस्तथा मुनिः अग्नेः पुत्रः कुमारस्तु श्रीमान् शरवणालयः तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः अनिलस्य शिवा भार्या पुत्रो मनोजवः अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु प्रत्यूषस्य विदुः पुत्रम् ऋषिम् नाम्नाथदेवलम् द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी योगसक्ता जगत्कृत्स्नमसक्ता विचचारः प्रभासस्य तु भार्या सा वसूनामष्टमस्य विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः कर्ता शिल्प सहस्राणां शिपसहसाण वर्धक भूषण कर्ता शिपवतां वर हैो दिव्यां विमानानि त्रिदशाना च कारण मनुष्य